श्रीमद्भागवतमहापुराणं दशमस्कन्ध अथैकोनविंशोऽध्यायः गौवो और गोपो को दावानलसे बचाना शीर्कुवाच क्रीडासक्तेषु गोपेषु तद्गावो दुर्चारिणिः स्वैरं चरन्त्यो विवसु तृणलोभेन गह्वरम् अजागावो महिष्यश्च निर्विशन्त्यो वनात्मनम् इति काटवीं निर्विर्वसू कन्दन्त्यो दावतर्षिता ते पश्यन्तपसन् गोपा कृष्णरामादियस्तदा जातानुतापा न विदुर्विचिन्वन्तो गवां गतिं तीणैस्तत्खुरं दक्षिणैर्गोष्पदैरङ्कितैर्गवाम् मार्गमन्वगमन् सर्वे नष्टा दिव्या विचेतसः मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं शगोधनं सम्प्राप्य त्रिसता श्रान्ता ततस्ते सन्न्यवर्तयन् ता आहूता भगवता मेघगम्भीर्या गिरां स्वनाम्नाम् नृदं श्रुत्वा प्रतिनेदो प्रहर्षिताः ततः समन्तान्वनधूमकेतु यदीक्षया भूच्छयकृद्वनमुकषां समीरितसारथिनोल्बणोर्मुकैः विलेलिहान् सृजङ्गमान् महान् तमापतन्तं परितोदवाग्निं गोपास्य गाव प्रसमीक्ष भीताः कृष्णं शबलं प्रपन्ना यथा हरिं मृत्युभयार्जिता जनाः कृष्णकृष्णमहावीर हे राममितविक्रम दावाग्निनादीयमानां तृपन्नास्त्रातुमर्हत नूनं तद्बान्धवा कृष्ण न चार्हं च वशीदितुं वयं हि सर्वधर्मज्ञ त्वन्नाथा त्वद्परायणाः शेषुकुवाच वचो निशम्यकृपणं बन्धूनां भगवान् हरि निमीलयत् मा भैश्च लोचनानित्यभाषत तथेति मिलिताक्षेषु भगवान् अग्निमुल्बणम् भिद्वा मुखेन तान् कृच्छाद्योगाधीशो विमोचयत् तदस्त्यते क्षिण्यो चिण्योन्मील्य पुनर्भाण्डीरमापताः निशाम्यविस्मिता आसन्नात्मानं गा सुमोचिताः कृष्णस्य योगवीर्यं तञ्जोगमायानुभावितं दावाग्निरात्मनक्षेमं वीक्षतये मे निरेमरं गा सन्निवर्तसामांसायाह्ने सह रामो जनार्दनः वेणुं विणयन् गोष्ठम् अगाद्गोपैरभीष्टितः गोपीनां परमानन्द आसीद्गोविन्ददर्शने क्षणं युगसतिमिव सा यासां येन विनाभवत् इति श्रीमद्भागवते महापुराणे पारहिंसां सहितायां दशमस्कन्धे पूर्वार्थे तावाग्पानं नामैकोनविंशोऽध्यायः